अयोध्याकाण्डं स्वर्गम् एट् वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः राज्ञः सभां देवसभा सन्निभामविशद्विभुः सत्रासने समासीनश्च दुर्मुख इवापरः आनीयभरदं तत्र उपवेश्य सहानुजम् अब्रवीद वजनम देश कालोचितम वत्सराज्येषेक्षास्ताम पितृशना कैकेय्याचिराज्यम पुषर्षभ सत्यसंधो दशरथ प्रतिय दद किल अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकं तच्छ्रुत्वा भरदोऽप्याह मम राज्येन किं मुने रामो राजाधिराजश्च वयं तस्यैव किङ्कराः श्वप्रभाते गमिष्यामो राममानेदुमञ्चस अहं यूयं मातरश्च कैकेयीं राक्षसीं विना हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीं किन्तु मां नो रघुश्रेष्ठस्त्रीहन्धारं सहिष्यते तच्छ्वो भूदे गमिष्यामे पादचारेण दण्डकान् शत्रुघ्नसहितस्तोर्णं यूयमायादवानवा रामो यथा वने यादस्तथाहं वल्कलाम्बरः सहितो मुने भूमिशायी जडाधारी यावद्रामो निवर्तते इति निश्चित्य भरतस्तूष्णीमेवावतस्तिवान् साधु साद्विदितं सर्वे प्रशशं ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः अनु जग्मुसुमन्त्रेण नोदिता कुञ्जराः कौसल्याद्याराजदारा राजधारा वसिष्ठप्रमुखा द्विजाः भुवं सर्वे पृष्ठदःपार्श्वतोऽग्रदः शृङ्गवेरपुरं गत्वा गङ्गाकुले समन्तदः उवासमहदीसेना शत्रुघ्न परिचोदिता आगदं भरदं श्रुत्वा गुहशङ्गितमानसः महत्या सेनया सार्धमागधो भरदः किल पापं कर्तुं न वायादि रामस्याविदितात्मनः गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति गङ्गानो चेत् समाकृष्य सायुधाः ज्ञादयो मे समायत्ताः पश्यन्तः सर्वतो दिशम् इति सर्वान् समादिश्य गुहो भरदमागदः उपायनानि सङ्गृह्य विविधानि बहून्यपि प्रययौ ज्ञादिभिः सार्धं बहुभिर्विविधायुधैः निवेद्योपायनान्यग्रे भरतस्य समन्ततः दृष्ट्वा भरतमासीनं सानुजं सहमन्त्रिभिः चिराम्बरं घनश्यामम् जडा राममेवानुशोचन्दं राम रामे दिवादिनं ननामशिरसा भूमौ गुहोऽहमिति चाब्रवीत् शीघ्रमुद्धाप्यभरतो पृष्ट्वा नामयमव्यग्रस्सखायमिदमब्रवीद भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः रामेणालिङ्गितसार्द्रनयनेनामलात्मना धन्योऽसि कृतकृत्योऽसि यत्वया परिभाषितः रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया यत्र रामस्त्वया दृष्टस्तत्र मां नय सहितो यत्र सूक्तस्तद्दर्शयस्व मे त्वं रामस्य प्रियतमो भक्रिमानसि भाग्यवान् इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः गुहेन सहितस्तत्र यत्र रामस्तिदोनिशि ययौ ददर्श शयनस्थलङ्कुशसमास्तृतं सीताभरण संलग्नस्वर्णबिन्दुभिरर्चितं दुःख सन्तप्तहृदयो भरदः पर्यदे वयद अको दिसुकुमारीया सीता जनकनन्दिनी प्रासादे रत्नपर्यङ्गे कोमलास्तरणे शुभे रामेण सहिता चेदे सा कथं कुशविष्टरे सीता रामेण सहिता दुःखेन मम दोषतः धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः अहोति सफलं जन्म लक्ष्मणस्य महात्मनः राममेव सदान्वेदि वनस्थमपि हृष्टधीः अहं रामस्य दासाय तेषां दासस्य किङ्करः यदि स्यां सफलं जन्म मम भूयान्न संशयः ्रादर्जानासि यदि तत् कथयस्वममाखिलं यत्र तिष्ठति तत्राहं गच्छाम्यानेदुमञ्जसा गुहस्थं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीद देव त्वमेव धन्योऽसि भक्तिरी रामे राजीव पत्राक्षे सीतायाँ लक्ष्मण तथा चित्रकूडाद्रिन मंदक्य विदूरद मुनीनाश्रम पदेमतिज जानकिया सहिजो नंतासुखम किल प्रभुः तत्र गच्छामहे शीघ्रं गङ्गां तर्तुं मिहार्हसि इत्युक्त्वा त्वरिदं गत्वा नावःपञ्चशतानिः समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीं स्वयमेवानिनायिकां राजनावम् गुहस्तदा आरोप्य भरदं तत्र शत्रुघ्नं राममातरं वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रदी दूरेस्ताप्य स्थाप्य भरदस्सनुजो ययौ आश्रमे मुनिमासीनं ज्वलन्दमिव पावकं दृष्ट्वा ननाम भरदस्साष्टाङ्गमधिभक्तितः ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट दृष्ट्वा राज्यं पप्र कुकुशल दृष्वा जड़कलधारिण राजस्ते किमेंवललाक विपिनं कि मुनिम भरद्वाज वच्रुवा भरदसाश्रुलोचन सर्वं जानासि भगवन् सर्वभूताशयस्थितः तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे कैकेय्यायत्कृतं कर्म रामराज्यविखातनं वनवासादिकं वापि न हि जानामि किञ्चन भवत्पादयुगं मेद्यप्रमाणं मुनिसत्तम इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वार्थमानसः ज्ञातुमर्हसि मां देव शुद्धो वा शुद्ध एव वा, वा। मम राज्येन किं स्वामिन् रामे किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके पतित्वा राज्यसंभारान् समर्प्यात्रैव राघवम् अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह नेष्ये योध्यां रमानाधं दासेवेति नीचवत् इत्युदीरिदमाकर्ण्य भरतस्य वचो मुनिः आलिङ्ग्य मोर्ध्न्यवक्राय प्रशशंस स त्वत्सज्ञादं पुरै वैदद्भविष्यं ज्ञान चक्षुषा मा शुचस्त्वं परो भक्तश्रीरामे लक्ष्मणादपि आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानख अध्यभुक्त्वा भुक्त्वा ससैन्यस्त्वं स्वो गन्धारामसन्निधिम् यथाज्ञापयदि भवांस्तथेदि भरतो ब्रवीद भरद्वाजस्त्वपस्पृष्ट्वा मौनी होमगृहे स्थितः दध्यौ कामदुःखां कामवर्षिणीं कामदो मुनिः यदा काम कामधुक् सर्वं काम काममलौकिकं भरतस्य ससैन्यस्य यथेष्टं च मनोरथं ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा पश्चात् सैन्यं भरदं तर्पयामास योगिराड पुषित्वादिनमेकं तु आश्रमे स्वर्गसन्निभे अभिवाद्य पुनः प्रादर्भरद्वाजं सहानुजः भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिं चित्रकूडमनुप्राप्य दूरे सैनिकान् रामसन्दर्शनाकाङ्क्षी प्रययौ भरतस्वयं शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः तपस्वि मण्डलं सर्वं भवनम विचिन्नोंवर्सत अदृष्ट्वाम भवनमृदृशिमंडल कुदया साधे रखोत्तम ऊचुरग्रे गिप्चा गंगाया उत्तरे तड़े विविक्तं रामसदनं रम्यं काननमण्डितं सफलैराम्रपनसैः कदलीखण्डसंवृतं चम्पकैकोविदारैश्च पुनागैर्विपुलैस्तथा एवं दर्शितमालोक्य मुनिभिर्भरदोऽग्रतः हर्षाद्ययौ रघुश्रेष्ठ भवनं मन्त्रिणा सह ददर्श दूराददिभासुरं शुभं रामस्य गेहं मुनिवृन्दसेविदं वृक्षाग्रसंलग्न सुवल्कलार्जिनं रामाभिरामं भरद सहानुजः यदि श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे अष्टमः सर्गः ॐ